श्रीमद्भागवतमहापुराणं दसंस्कन्ध वासोऽभि पीतकोशेयै भूषणैश्च महाधनैः अर्हयित्वा इत्थं शभाजितं व्यक्ष्य सर्वे प्राञ्जलयो जनाः पुष्पवृष्टयः इत्थं निशम्यदमघोषसुत स्वपीठा उत्थाय कृष्णगुणवर्णनजातमन्योः दुःक्षेप्य बाहो मिदमाह सदस्य मर्षि संस्रावयन् भगवते परुषाण्यभीतः ईशो दुरत्यकारयति सत्यवती श्रुतिः दिग्धानापपि यद्बुद्धिर्बालवाक्यै विभिद्यते योऽयं पात्रविदां श्रेष्ठा मामध्वं बालभाषितं सदसस्पतय सर्वे कृष्णो यः सम्मतोऽर्हले तपो विद्यावृतधरान् ज्ञानविध्वस्तकल्मषान् परमर्षेन् ब्रह्मनिष्ठान् लोकपालैश्च पूजितान् सदस्पतेनतिक्रम्य गोपालकुलपांशनः यथा काकपुरोराशं सपर्यां कथमर्हति वर्णाश्रं कुलापेत सर्वधर्म बहिष्कृतः स्वैरर्वर्ती गुणैः सपर्या कथमर्हति जातिनैषां हि कुलं शप्तं सन्भिर्बहिष्कृतं मिथापानरतं शाश्वन् सपर्यां कथमर्हति ब्रह्मर्षि सेवितान् देशान् हित्वैते ब्रह्मवर्चषं समुद्रं दुर्गमाश्रित्य बान्धन्ते दस्यव प्रजाः देवमादिन्यभद्राळीवभासे नष्टमङ्गलः नोवाच किञ्चिन् भगवान् यथा सिङ्गशिवा ऋतं भगवन्निन्दनं श्रुत्वा दुस्सहं तस्य भाषदः कर्णोऽपिधायि निर्जग्मो शपन्तश्चेदिपं वृषां निन्दां भगवतः शृण्वन्तत्परस्य जनस्य वां ततो नामयिं तां नापैति यशोऽपि यात्य सुकृतात्यतः ततः पाण्डुसुता क्रुद्धामस्य कैकयिसञ्जयाः कै उदायुधा ततश्चैद्य तुमभ्रान्तो जगृहे खड्गचर्मणि धर्षयन् कृष्णपक्षीयान् राज्ञ सदशि भारत तावदुत्थाय भगवान् स्वानिवार्य स्वयं वृषाम् शिर क्षुरान्तचक्रयेण जहाराप ततो रिपो शब्दकोलाहलोप्यासे शिषुपाले हते महान् तस्यानुयायिनो भूपादुद्रुवुर्जीवितैषिणः चेद्यदेहोत्थितम् ज्योतिर्वासुदेवमुपाविशत पश्यताम् सर्वभूतानाम् उल्केव भूयिखाचिताम् जन्मत्रयानुगुणितवैरसंलब्धया धियाम् ध्यायन् तन्मयताम् यातो भावो हि भव कारणम् ऋत्विग्भ्यं सत्सद्येभ्यो दक्षिणां विपुलामदात् तर्वान् सम्पूज्य विधिवच्चक्रे वा भृतमेकराट् साधित्वा कृतं राज्ञ कृष्णो योगेश्वरेश्वरः उवास कृतचिन्मासां ततोनुज्ञाप्य राजान्मनिच्छन् अधिक्षन्त अपरीश्वरः ययो सभार्य सामात्य स्वपुरं देवकीसुतः वर्णितं तदुपाख्यानं मया ते बहुविस्तरं वैकुण्ठवासिनोर्जन्म विप्रशापात् पुनः पुनः राजसूयावभृत्येन स्नातो राजा युधिष्ठिरः ब्रह्मचत्रसभामध्ये शुशुभे सुररादिव राज्ञा सभाजिता सर्वे सुरमानवकेचराः कृष्णं कृतं च संसन्त सुधामानि ययुर्मुदां दुर्योधनमृते पापं कलिं कुरुकुलामयं यो नसेहे श्रियं सीतां दृष्ट्वा पाण्डुसुतस्यताम् य इदं कीर्तयेद्विष्णो कर्म चेद्यवधादिकम् राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते इति श्रीमद्भागवते महापुराणे पारहंसां सहितायां तसं स्कन्धे उत्तरार्धे शुष्पालवधो नाम चतुस्सप्ततितमोऽध्यायः